नारदपुराणम् पूर्वार्थम् अध्यायम् नैण्टि त्रि ब्रह्मोवाच शृणु पुत्रप्रवक्ष्यामि पुराणम् पद्मसञ्ज्ञकम् महत्पुण्यप्रदम् नृणाम् शृण्वताम् पठताम् मुदा यथा चञ्चेन्द्रियः सर्वः शरीरीतिनिगद्यते तथेदम् पञ्चभिःखण्डैरुदिदम् पावनाशनम् कुलस्त्येन दुभीष्माय सृष्ट्यादिक्रमदो द्विज नानाख्याने दीहासाध्यैर्यत्रोक्तो धर्मविस्तरः पुष्करस्य च माहात्म्यम् विस्तरेण प्रकीर्तितम् ब्रह्मयज्ञविधानं वेदपाठादि वेदपाठादिलक्षणम् दानानां कीर्तनम् यत्र व्रतानां च पृथक् पृथक् विवाहशैलजायाश्च तारकाख्यानकम् महद माहात्म्यं च गवादीनां कीर्तिदं सर्वपुण्यदम् कालकेयादिदैत्यानां वधो यत्र पृथक् पृथक् ग्रहाणामर्चनम् दानम् यत्र प्रोक्तम् द्विजोत्तम तत्सृष्टिखण्डमुद्धिष्टं यासेन सुमहात्मना पितृमात्रादि पूज्य त्वे पुरा सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तदा पृथोर्वैनस्य चाख्यानम् सूनु सुनूया सुनू कथा तथा सुकलाख्यानकम् चैव धर्माख्यानम् ततः परम् पितृशुश्रूषणाख्यानम् न कथा ततः ययादिचरितं चैव गुरुतीर्थनिरूपणं राज्ञा जैमिनि संवादो बह्वाश्चर्य कथायुधः कथाख्यशोकसुन्दर्या कुण्डदैत्यवधान्विदा कामोदाख्यानगं तत्र विहुण्डवधसं युधं कुञ्चलस्य जसंवादश्च्यवनेन महात्मना सिद्धाख्यानं तथा प्रोक्तं खण्डस्यास्य हलोहनं फलोहनं सुदशौनकसंवादं भूमिखण्डमिदं स्मृतं ब्रह्माण्डोत्पत्तिरुदिता यत्र ऋषिभिश्च सौदिना स भूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् नर्मदोत्पत्तिकथनं तत्तीर्थानां कथा पृथक् कुरुक्षेत्रादितीर्थानां कथा पुण्या कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनं गयाश्चैव माहात्म्यं प्रयागस्य च पुण्यकं वर्णाश्रमानुरोधेन कर्मयोगनिरूपणं व्यास जमिनिसंवादः पुण्यकर्मकथान्विदः समुद्रमधनाख्यानं व्रताख्यानं ततः परम् ऊज पञ्चाहमाहात्म्यं स्तोत्रम् सर्वापराधुनाद ये तत्स्वर्गाभिधम् विप्रसर्वपादकनाशनम् रामाश्वमेधम् प्रथमम् रामराज्याभिषेचनम् अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्तनम् नानाराजकथा पुण्याजगन्नाथानुवर्णनम् वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् नित्यलीलानुकथनम् यत्र कृष्णावतारिणः माधवस्नानमाहात्म्यम् स्नानदानार्चने फलम् धरावाराहसंवादो यमब्रह्मणयोः कथा संवादो राजदूतानां कृष्णस्तोत्रनिरूपणं शिवशम्भुसमयोगी दधी चाख्यानकं तदः भस्ममाहात्म्यमधुलं शिवमाहात्म्यमुत्तमं देवराधसुधाख्यानं पुराणज्ञ प्रशंसनं गौतमाख्यानकं चैव शिवगीता तदस्मृता कल्पान्तरे रामकथा भारद्वाजाश्रमास्थिदा पादालखण्डमे दद्धिशृण्वम् पठदाम् सदा सर्वपापप्रशमनं सर्वान्धीष्टबलप्रदम् पर्वताख्यानकं पूर्वं, गौढै प्रोक्तं शिवेन जालं जालम् धरकथा पश्चाच्छी पश्चात् श्रीशैलाद्यनुकीर्तनम् सगरस्य कथा पुण्यात् तद परमुदीरिदम् गङ्गाप्रयागकाशीनां गयाश्चाधिपुण्यकम् अन्नादिदानमाहात्म्यं तन्महाद्वादशीव्रतं चतुर्विंशैकादशीनां माहात्म्यं पृथगीरिदम् विष्णुधर्मसमाख्यानं विष्णो कार्तिकव्रतमाहात्म्यम् माकस्नानफलं ततः जम्बूद्वीपस्य तीर्थानां माहात्म्यम् पापनाशनम् साभ्रमत्याश्च माहात्म्यम् नृसिंहोत्पत्तिवर्णनम् देवशर्मादिकाख्यानम् गीता माहात्म्यवर्णनम् भक्त्याख्यानं श्रीमद्भागवतस्यः इन्द्रप्रस्थस्य माहात्म्यम् बहुतीर्थकथान्वितं मन्त्ररत्नाभिधानम् च त्रिपाद्भूत्यनुवर्णनम् अवतारकथापुण्या मत्स्यादीना मतः परम् रामनामशदम् दिव्यम् तन्माहात्म्यं च बाडव परीक्षणम् च भृगुणा श्रीविष्णोर्वैभवस्य च इत्येतदुत्तरं खण्डं पञ्चमं सर्वपुण्यदं पञ्चखण्डयुधम् पाद्मं यशृणोति नरोत्तमः स लभेद्वैष्णवं ना धाम भुक्त्वा भोगानि हेप्सिदान् एतद्वै पञ्च पञ्चाशत्सहस्रं पद्मसंज्ञराणं लेखयित्वा वैज्येष्ठ्यां स्वर्णाब्जः यद्यासत्रा सी वैष्णव धाम नमस्कृत पदमा क्रमणी में येृणुया तथा सोपि पदुराण से लभेवण जम श्री बृहनादीयपुराणे पूर्वभागे चदुर्धपादे, बृहदुपख्या पद्मानुक्रमणिवर्णन नाम त्रिनवतितमोध्याय ओं